मुक्तिकोपनिषत् ईशाद्यष्टोत्तरशतवेदान्तपटलाशयं मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे शान्तिपाठं हरिः ओ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिशान्तिश्शान्तिः अधः प्रथमोऽध्यायः ॐ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे सीताभरदसौमित्रिशत्रुघ्नाद्यैः समन्वितम् सनकाद्यैर्मुनिगणैर्वसिष्ठाध्यैशुकादिभिः अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशं धीविक्रिया सहस्राणां साक्षिणं निर्विकारिणम् स्वरूपध्याननिरदं समाधिविरमे हरिं भक्त्या शुश्रूषया रामं स्तुवन् पप्रच्छमारुधिः रामत्वं परमात्मसि सच्चिदानन्दविग्रहः इदानीं त्वां रघुश्रेष्ठप्रणमामि मुहुर्मुहुः द्रूपं ज्ञातुमिच्छामि तत्वदो राममुक्दये। अनायासेन येनाहं मुच्येयं भवबन्धनाद कृपया वद मे राम येन मुक्तो भवाम्यहं साधुपृष्टं महाबाहो वदामि शृणुतत्वदः वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय वेदान्धाख्ये रेघुश्रेष्ठवरुदन्ते कुत्र ते वद हनुमञ्छृणुवक्ष्यामि वेदान्तस्थितिमञ्चसा निःश्वासभूदा मे विष्णोर्वेदा जादास् सुविस्तराः तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः रामवेधा कदिविधास्तेषां शाखाश्चराखव तासूपनिषदा कास्युकृपया वदतत्वदः श्रीराम उवाच ऋग्वेदादिविभागेन वेदाश्चत्वार ईरिदाः तेषां शाखाह्यनेकास्युस्तासोपनिषदस्तथा ऋग्वेदस्य दुःशाखास्युरेगविंशतिसङ्ख्यकाः नवाधिकशतं शाखा, शाखा नवाधिक यजुषो मारुदात्मजा सहस्र जादा शाखा सापर अथर्वण से शाखा स्युपंचाश्देदोहरे ये क्या शाखाया तासामेका कैकोपनषन्मदाचँम य पठते भक्तितो मयि स मुज्य पदवीं प्रादि मुलभाम केजिन्मुनिश्रेष्ठा मुक्तिरे के दिचक्षिरे के दि केचि न्ना भजनाश्यांपदेश अने दुस्स्य भक्तिगन चपर अेदाकर्शोक्यादि विभाग च दुर्द मुक्तिरीता सहोवाच्रीरा कैवल्यमुक्तिरेकैव परमार्थिकरूपिणी दुराचाररथो वापि मन्नामभजनात्कपे सालोक्यमुक्तिमाप्नोति न तु लोकान्तराधिकं काश्यां मत्तारमाप्नुयाद पुनरावृत् तिरहितां मुक्तिं प्राप्नोति मानवः यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः जन्तोर्दक्षिणकर्णे मत्तारं समुपादिशेद निर्धुदाशेषपापौखो मत्सारूप्यं भजत्ययम् सारूप्य स वसा लोक्यसारूप्य मुक्तिरधीये सदाचाररदूज निधी मयि सर्वात्मको भाव मत्मीप्यं भजतोक्यसूप्यमीप्या मुक्तिष्य गुरूपपदिष्टमार्गेणध्यायन्मद्गुणमव्ययं मत्सायुज्यं द्विजः सम्यग् भजेद्भ्रमरकीटवद सैव सायुज्य मुक्ति स्याद्ब्रह्मानन्दकरी शिवा चतुर्विधा तु या कैवल्य केनो इं कल्य मुक्ति किध्यति मांडूक्यमेक मुू विप्य सिद्धं चेज्ज दशोपनिषदं पठ ज्ञानम लब्ध्वा चिरा मामकं यासी तथापि दृढता न चेद्विज्ञानस्याञ्जनासुत द्वात्रिं शाख्योपनिषदं समभ्यस्य निवर्धय विदेहमुक्ता विच्छा पठ तासां च शृणु वक्ष्यामि ईशकेन कठप्रश्नमुण्डमाण्डूक्यतित्तिरिहि ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ब्रह्मकैवल्यजाबालश्वेदाश्वो हंस आरुणिः गर्भो नारायणो हंसो बिन्धुर्नादशिरशिखा मैत्रायणी कौशीतकी बृहज्जाबालतापनी कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् परिव्रातृशिखी सीताचूडानिर्वाणमण्डलं दक्षिणाशरभं स्कन्दं महानारायणाह्वयं रक्ष्यं रामतपनं वासुदेवं चमुद्गलं। मुद्गलं पैङ्गलं भिक्षु महच्छारीरकं शिखा तुरीयातीतसन्न्यासपरिव्राजाक्षमालिका अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका सावित्र्यात्मा पाशुपदं परं ब्रह्मावधूतकम् त्रिपुरा त्रिपुरातपनं देवी त्रिपुरा कठभावना हृदयं कुण्डलीभस्म रुद्राक्षगणदर्शनम् तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकं गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् शाढ्यायनीहयग्रीवं दत्तात्रेयं जगारुडं कलिजबालिसौभाग्यरहस्य ऋचमुक्तिका एवमष्टोत्तरशतं भावनात्रयनाशनं ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरस्सरं वेदविद्याव्रतस्नाददेशिकस्य मुखात् स्वयं गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ततः कालवशादेव प्रारब्धे तु क्षयं गदे वैदेहीं मामहीं मुक्तिं यान्ति नास्त्यत्र संशयः सर्वोपनिषदां मध्ये सारमष्टोत्तरशतं सकृच्छ्रवणमात्रेण सर्वाखनिकृन्तनम् मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् ज्ञानदो ज्ञानदो वापि पठतां बन्धमोचकं राज्यं देयं धनं देयं याचधकामपूरणम् इदमष्टोत्तरशतं न देयं यस्य कस्यचिद् नास्तिकाय कृतघ्नाय दुराचाररताय वै मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते गुरुभक्तिविहीनाय दातव्यं न कदाचन सेवापराय शिष्याय हितपुत्राय मारुते मद्भक्ताय सुशीलाय कुलीनाय सुमेधसे सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरं शतं यः पडे शृणुयाद्वापि समामे दिनसंशयः तदेतदृजाभ्युक्तम् विद्याह वै ब्राह्मण मा जगामगोपाय मा शेवधिष्ठीहमस्मि असूयकाया नृजवे शठाय यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नं तस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् अध हैनं श्रीरामचन्द्रं मारुधि पप्रच्छऋग्वेदादिविभागेन पृथक् मनुब्रोहीति शान्तिमनुब्रूहीति सहोवाच श्रीरामः मुद्गलाक्ष मालिका त्रिपुरा सौभाग्य बह्चा नामृग्वेदगदानां दशसङ्ख्याकानामुपनिषदाम् वाङ्मे मनसि दिशान्तिः ईशावास्य बृहदारण्यजाबालहंस परमहंस सुबालमन्त्रिका निरालम्बत्रिशिखिब्राह्मणमण्डलब्राह्मणाद्वयतारक पैङ्गलभिक्षु तुरीयातीदाध्यात्मतारसार याज्ञवल्क्य शाढ्यायनीमुक्तानां शुक्लयजुर्वेदगतानामेकोनविंशतिसङ्ख्याकानामुपनिषदां पूर्णमद इति शान्तिः कठवल्ली तैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भनारायणामृत बिन्द्वमृद नादकालाग्निरुद्रक्षुरिका सर्वसार शुकरकस्य तेजो बिन्दुध्यान बिन्दुब्रह्मविद्या योगतत्त्वदक्षिणामूर्तिस्कन्द शारीरकयोग शिखैकाक्षर अक्ष्यवधूतकढरुद्र हृदययोग कुण्डलिनी पञ्चब्रह्मप्राणाग्निहोत्र वराहकलिसन्दरणसरस्वतीरहस्यानां कृष्णयजुर्वेदगदानां द्वात्रिंशत्सङ्ख्याकानमुपनिषदां सहनावत्विधि शान्तिः केन छान्दो ज्ञारुणि मैत्रायणि मैत्रेयी वज्रसूचिका योकचूडामणि वासुदेव महत्संज्ञा व्यक्त सा व्यक्तकुण्डिका सावित्री सामवेदगदानां षोडशसङ्ख्याकानामुपनिषदानामाप्यायन्त्विदिशान्तिः प्रश्नमुण्डकमाण्डुक्याधर्वशिरोधर्वशिखा बृहज्जाबालनृसिंहतापनीनारदपरिव्राजकसीदाशरभ महानारायण रामरहस्य रामतापनी शांडिल्य परमहंस परिव्राचक अन्नपूर्णा सूर्यात्म पाशुपद परब्रह्मत्रिपुरात्तपनदेवी भवनाब्रह्म जाबालगणपतिमहावाक्य गोपालतपन कृष्णहयग्रीवदत्तात्रेयगारुडानामथर्ववेदगदानामेकत्रिंशत्सङ्ख्याकानामुपनिषदां भद्रं कर्णेभिरिदिशान्तिः मुमुक्षवः पुरुषाः साधनचतुष्टय सम्पन्ना श्रद्धावन्तः सुकुलभवम् श्रोत्रियं शास्त्रवात्सल्यगुणवन्तमकुटिलं सर्वभूतहितेरथं दया समुद्रं विधिवदुपसंगम्योपहार पाणयोष्टोत्तरशतोपनिषदं विधिवदीत्यश्रवणमनननिधिध्यासनानि नैरन्तर्येण कृत्वा प्रारब्धक्षयाद्देहत्रयभङ्गं प्राप्योपाधिविनिर्मुक्तखाकाशवत् परिपूर्णता विदेहमुक्तिसैव कैवल्यमुक्तिरिति अत एव ब्रह्मलोकस्था अभिब्रह्ममुखाद्वेदान्तश्रवणादिकृत्वा तेन सह कैवल्यं लभन्ते अथ सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता न कर्म साङ्ख्ययोगोपासनादिभिरित्युपनिषत् अधद्वितीयोऽध्यायः तथा हैनं श्रीरामचन्द्रं मारुधि पप्र केयं वा तत्सिद्धिसिद्ध्या वा किं प्रयोजनमिति सहोवाच श्रीरामः पुरुषस्य सुख कर्तृत्वभोक्सुखदुखादिलक्षणचिधक्लेशंधो भन्नीधनम जीवन्मु उपाधि विनिर्मुक्त विर्मुक्ताकाशवत्यादेह मुक्री जीवन मुक्ति विदेह मुक्ोरष्टोतरशन प्रमाण कर्तृवादिदुखनिवृत्ति व्याति प्रयोजनं भवि तत्पुरुष प्रयत्न साध्यं साध्यमती पुत्रका पुत्र वाणिज्यादिना वित्तं ज्योतिष्ठो मेन स्वर्गं तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना जीवन्मुक्त्यादिलाभो भवति सर्ववासनाक्षया तल्लाभः अत्र श्लोका भवन्ति उच्छास्त्रं शास्त्रितं चेदि पौरुषं द्विविधं मदम् अत्रोच्छस्त्रमनर्थाय परमार्थाय शास्त्रितं लोकवासनया जन्तोश्शास्त्रवासनयापि च देहवासनया ज्ञानं यथा वन्नैव जायते दिविधा वासनाव्यूहशुभश्चैव शुभश्च तौ वासनौखेन शुद्धेन तत्र चेदनुनीयसे तत्क्रमेणाशुतेनैव मामकं पदमाप्नुहि अथ चेदशुभो भावस्त्वां योजयदि सङ्कटे नाजेतव्यो भवदा कपेः शुभाशुभाभ्यां मार्गाभ्यां वहन्तीवासनासरित् पौरुषेण प्रयत्नेन योजनीया शुभे पथि अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् अशुभाच्चालिदं शुभं तस्मादपीतरद तरद् पौरुषेण प्रयत्नेन लालये चित्तबालकम् द्रागभ्यासवशाद्यादि यदा ते वासनोदयं तदाभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन सन्दिग्धायामपिभृशं शुभामेव समाचर शुभायां वासनावृद्धौ न दोषाय मरुत्सुत वासनाक्षयविज्ञानमनोनाशा महामदे समकालं चिराभ्यस्ता भवन्ति फलदा मदाः त्रय एवं समं यावन्नाभ्यस्ताश्च पुनःपुनः तावन्न पदसम्प्राप्तिर्भवत्यपि समाशतैः येकैकशो निषेव्यन्ते यद्येदे चिरमप्यलं तन्न प्रयच्छन्ति मन्त्राः सङ्कीर्तिता इव त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः निःसङ्गमे व्रुट्यन्ति विषच्छेदाद्गुणा इव जन्मान्तशदाभ्यस्ता मिथ्या संसारवासना सा चिराभ्यासयोगेन विना न क्षीयते क्वचिद् तस्म्य प्रयत्न पौरुषेण विवेकि भोगे चा दूरतस्तवाय सश्रय तस्मासनया मनोब्ध विदुर्बु सम्यसनया तक मुक्रमित मनो निर्वासनी भावमाचराशु महाकपे सम्यगालोचनात्सत्याद्वासना प्रविलीयते वासनाविलये चेदः शममायादिदीपवद वासनां सम्परित्यज्य मयि चिन्मात्रविग्रहे यस्तिष्ठति गतो व्यग्रस्सोऽहम् सच्चित सच्चिसुखात्मक सीमा करो हृदय सर्वेह मुक्तमाश नैषक्येण न तस्तस्कर्म न स साधनजाप्याभ्यां यस्य निर्वासनं मनः सन्ध्यक्तवासनान्मौना धृदे नास्त्युत्तमं पदम् वासनाहीनमप्यदच्चक्षुरादीन्द्रियं स्वतः प्रवर्तते बहिःस्वार्थे वासनामात्रकारणम् अयत्नोपनदेष्वक्षिदृग्द्रव्येषु यथा पुनः नीरागमे वपददि तद्वत्कार्येषु धीरधीः भावसंवित्प्रकटितामनुरूपा च मारुते चित्तस्योत्पत्त्युपरमा वासनां मुनयो विदुः दृढाभ्यस्तपदार्थैकभावनादधिचञ्चलं चित्तं सञ्जायदे जन्मजरामरणकारणं वासनावशदः प्राणस्पन्दस्तेन च वासना क्रियते चित्तबीजस्य तेन बीजाङ्गुरक्रमः द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अभिनश्यतः असङ्गव्यवहारत्वात् भवभावनवर्जनाद् शरीरनाशदर्शित्वाद्वासना न प्रवर्तते वासनासंपरित्यागाचिदं गच्छत्यचित्तताम् अवसानत्वात् सततं यदा मनः अमनस्तात्तदो देदि परमोपशमप्रदा अव्युत्पन्नमना यावद् भवानज्ञातत्पदः गुरुशास्त्रप्रमाणैस्तु निर्नीदं तावदाचर ततः पक्वकषायेण नूनं विज्ञातवस्तुना शुभोऽप्यसौ त्वया त्याज्यो वासनौखो निराधिना द्विविधचित्तनाशोऽस्ति स्वरूपोरूप एव च जीवन्मुक्तस्वरूपस्यादरूपो देहमुक्ृगः अस्य नाश्यमिदानीं त्वम् पावने शृणुसादरं चित्तनाशाभिधानं हि यदाते ते विद्यते पुनः मैत्र्यादिभिर्गुणैर्युक्तं शान्तिमेदिनसंशयः भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते अरूपस्तु मनोनाशो वैदेही मुक्तिगो भवेद् सहस्राङ्कुरशाखात्मफलपल्लवशालिनः अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् सङ्कल्प एव तन्मन्ये सङ्कल्पोपशमेन तद् शोषयाशु यथा शोषमेधि संसारपादपः उपाय एकये वास्ति मनस स्वस्य निग्रहे मनसोऽभ्युदयो नाशो मनो नाशो महोदयः ज्ञमनो नाशमभ्यदि मनोज्ञस्य हि शृङ्खला तावन्निशीववेतालावल्गन्धिहृदि वासनाः एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः पत्मिन्य इव हे मन्दे क्षीयन्ते भोगवासनाः हस्तं हस्तेन सम्पीड्य दन्तैर्दन्तान्विचूर्ण्य च अङ्गान्यङ्गैः समाक्रम्य जये दादौ उपविष्यो मनः उपविश्योपविश्यैकां चिन्तकेन मुहुर्मुहुः न शक्यते मनो जेतुं विना युक्लिमनिन्दिताम् अङ्गुशेन विना मत्तो यथा दुष्टमदङ्गजः अध्यात्मविद्याधिगमः संगदिरेवच सङ्गतिरेव प्राणस्पंद निरोधनम् एतास्ता युक्तयः पुष्टा सन्ति चित्तजये किल सतीषु युक्तिष्वेदासु हडान् नियमन्ति ये चेदसोद्दीपमुत्सृज्य विचिन्वन्ति तमोञ्जनैः विमूढा कर्तुमुद्युक्ता ये हडाच्चेदसो जयम् ते निबध्नन्धि नागेन्द्रमुन्मत्तं विसतन्तुभिः द्वे बीजे चित्तवृक्षस्य वृत्तिव्रदति धारणः एकम् प्राणपरिस्पन्दो द्वितीयं दृढभावना सा हि सर्वगदा संवित् चाल्यते चित्तैकाग्र्याद्योज्ञानमुक्तं समुपजायते तत्साधनमधोध्यानं यथावदुपदिश्यते विनाप्यविकृतिं कृष्णां संभवव्यत्ययक्रमाद। यशोरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय नेतंगदेणो यभ्युति योगी तवत्वस्था योगिभये बहिस्तंग प्राणे यन उद तूर्ण सवस्था बहिष्ठ कुंभकं पिदु ब्रह्माकारमनोवृत्तिप्रवाहोहङ्कृतं विना सम्प्रज्ञादसमाधिस्याध्यानाभ्यासप्रकर्षतः प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् असम्प्रज्ञादनामायं समाधिर्योगिनां प्रियः प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् अदद्व्यावृत्तिरूपोऽसौ समाधिर्मुनिभावितः ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकं साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः दृढभावनयात्यक्रपूर्वापरविचारणं यदादानं दानं पदार्थस्य वासना सा भावितं तीव्रसंवेगादात्मना यत्तदेवसः भवत्याशु कपिश्रेष्ठ विगतेतरवासनः तादृग्रूपो हि पुरुषो वासना विवशीकृतः सम्पश्यति यदैवै दसद्वस्त्विति विमुह्यति वासना वेगवैचित्र्यात्स्वरूपन्न जहादि तद् भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव उपासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा मलिना जन्म शुद्धा जन्मविनाशिनी अज्ञानसुखनाकारा खनाहङ्कारशालिनी पुनर्जन्मकरी प्रोक्ता मलिनावासनाबुधैः पुनर्जन्माङ्गुरं त्यक्त्वा स्थितिस्सम्भ्रष्टबीजवद बहुशास्त्रकथाकन्धारो मन्थेन वृथैव किम् अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् दर्शना दर्शने हि स्वयं केवलरूपतः य आस्ते कपिशार्दूलब्रह्म स ब्रह्मवित् स्वयम् अधीत्यचतुरो वेदान् सर्वशास्त्राण्यनेकशः ब्रह्मतत्त्वं न दर्वी पागरसं दर्वीपागरसंयथा स्वदेहाशुचिगन्धेन न विरज्येत यः विरागकारणं तस्य किमन्यदुपदिश्यते अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते बद्धो हि वासनाबद्धो मोक्षस्याद्वासनाक्षयः वासनां सम्परित्यज्य मोक्षार्थित्वमपि त्यज मानसीर्वासना पूर्वं त्यक्त्वा विषयवासनाः मैत्र्यादिवासनाम्निर्गृहाणामलवासनाः ता अत्यदपरित्यज्य ताभिर्व्यवहरन्नपि अन्धशान्तः समस्नेहो भव चिन्मात्रवासनः तामप्यध मनो बुद्धिसमन्वितां शेषस्थिरसमाधानो मयि भवमारुदे अशब्दमस्पर्शमरूपमव्ययम् तथा रसं नित्यमगन्धवच्च अनामगोत्रं मम रूपमीदृश्यं भजस्व नित्यं पवनात्मजार्तिहन् दृश्यस्वरूपं गगनोपमं परं सकृद्विभाधं त्वजमेकमक्षरं। अलेपकं सर्वगदं यदद्वयं तदेव सकलं विमुक्त ॐ दृशिस्तु शुद्धोऽहमविक्रियात्मको न मेस्ति कश्चिद्विषयस्वभावदः पुरः स्थिरश्चोर्ध्वमधश्च सर्वतः सुपूर्णभूमाहमितीह भावय अजो तथा जरो मृधस्वयं स्वयं प्रभः सर्वगदोऽहमव्ययः न कारणं कार्यमतीत्य निर्मलः सदैव तृप्तोऽहमितीह भावय त्यक्त्वा स्वदेहे कालसात्कृते विशत्यदेहमुक्तत्वं पवनोस्पन्ददामिव तदेतदृजाभ्युक्तं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततं तद्विप्रासो विपन्यवो जागृवांसमिन्धदे विष्णोर्यत्परमं पदम् ॐ सत्यमित्युपनिषद ॐ पूर्णमद्धः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिशान्तिशान्तिः हरिः ॐ तत्सद इति मुक्तिकोपनिषत्समाप्ता